गोदि बोधाज्ञेधामन्धोमेषु प्रयन्ति यज्ञम् विपरयन्ति त्वमिन्द्रवेष्ठिला अयीनाशुरपूर्वी त्वे रो नेनादेशे विश्वाकृत्रिमाणि जीषा भीमो देशायो देव्याणि वित्तानि इन्द्रः पुरो जनुत इन्द्रजोर्मोलवन्दनादृक्षवेद्याधिः स्या विषूलस्य जनतोना अभिकर्तेन्द्रफुरसपन्नतेव्यम् महिलानम् रजासि ेनाय रमन्द्रवन्दुधाते देवाश्चित्ते असुर्याय पूर्वेरुक्षत्रायसि इन्द्रामीन्दयते विग्रह्येन्द्रम् वायस्य जोः वन्दसादौ कीजिश्चिद्धित्ता मम ये युहावेशारेन्द्रसौभागस्य भूरे अपो बभूजनमूते अस्मे आभिक्षत्र स्वातोऽवरुता सखा यत्र इन्द्रविश्वहस्याम नमो प्रजासो महिला च रुद्रा मन्वन्तु स्मादेवर्यो मनुषां स जा इन्द्र त्वजाति वशीते जित्रे अस्तु शक्तिर्यूयम् पाद स्वस्तिभिस्तो मामिन्द्रमन् दु त्वायन्ते सुरावर्यवाद्री सोदर्बाभ्याम्सुजो नार्वा यस्ते मधुयुज्यश्चरस्तेनसिन्द्रप्रभूपसोमत्तु प्रशस्तिम् इमा ब्रह्म समादेश्वा श्रुजीहवम् गिरिपालस्या ध्रेर्बोधा विप्र स्याच्च सोमनिषाम् ुभाव्यन्द मासे मा न ते गिरो अपि मृष्ये तुरस्य न सुष्ठुति विद्वान् सदा ते नाम भूरिमनीषीरपते त्वा अस्मन्नाघवान्त्योक्ताः तुभ्यम् ब्रह्मा कृणोमि नो चिन्नुते मन्यस्मोदश्रुवन्ति महिमानामुग्र न वीर्यमिन्द्र तेन राधाः ते च मोर्भजा योगे च मोत्रायन्द्र ब्रह्माणि जनयन्तभिप्राः अस्मिन् दे सन्तु सङ्ख्या दिवाली यूयम् पाद स्वस्ति विश्व ब्रह्माण्यैन्द्रम् सभर्ये मा भ आयो विश्वानि वो अश्रोतामैवंसि अजा नियोगान्व देव नय चरुदृवाचि रजेदहम् गवेषाणम् नभ्यामुपब्रह्माणि विरुषा नोयित्तेन्द्र धृत्राण्य प्रतीजन्मान् आपश्चित्तिप्यस्तर्योक्ष्णन्त्र वायुर्न निम् निधिभिर्दयसे विवादान् चे त्वामदा इन्द्रमादयन्त्रसूक्ष्मिनम् सञ्जरित्रे ये वेलीन्द्राम् भद्राभ्यर्जन् तर्कैः स नस्तु गो वीरधाय मद्यूयम् पाद स्वस्तिभिः सरा नः यो निष्टये पुरुः प्रयाहि ोमेन्द्रज्जुमर्णा सुपरिहृक्तासूनि विदृष्टतेना भरते सुन्द्रञ्जो भूपति मनीषा आ नो दिव आपृथिव्यालम्बर्हि सो ममे याय याहि यो मद्योढमच्छा तव संवराय आ नो विश्वायुः सजोषा ब्रह्मायुषा नो हर्यश्व ीवाचनपालेन्द्रि इन्द्रयमकी टेवीमद्यामधीमसोधास्य नवोऽप्रदे महीमसो मलिम्बे विदाम जुषम् बिन्वमघवध्यः सुरीराम् यूयम् पाद स्वस्तिभिः सदा नः आलेणग्रदान्यभूयत् समरन्त सेना पदालीतिन्दर्यस्य वा देवना विश्वध्या अग्निदाली निदुर्गयिन्द्रस्मधिक्यमात्रा न भिनो मनता सो अमन्ति आरेतम् शंसङ्ोलानो भर शम्भरम् वसूनाम् शन्ते श्रीप्रणोतयः सुदासे सहस्रम् शंसारुतराजिरस्तु जगिव धर्मढो मत्यस्यास्मेद्युम्न मिरत्रञ्जेहि त्वावतो हीन्द्रक्रत्वे अस्मि त्वावतो विदुशूर रातौ श्वेनार्यलिरेव कर्तृष्णरिभोरमध्ये कुत्सादे हर्यशाय शूर इन्द्रे देवदूरवियाना सत्रादि सुखनाशूरत्रा भयम् तरुद्राश्रयवाजम् एवा न इन्द्रभार्यस्य ऊर्ध्ये त्वन् सुमतिम्बे विराम मघवजस्वीरा यूयम् पादस्वस्तिभिस्त्रमसुधोदधा ब्रह्मणो मघवानम् सुदासा तस्मा मुग्धम् जन जयजुजोरन्द्रपन्नवीयश्रुणमजथा नः मुग्धमुक्थे सोमयेन्द्रम् मादनीचे नीजे मघवानम् सुदासाः यदि सकारदान् जानि ब्रुवन्तिु जनीकः स मानोनिमारजयुलेन्द्रस्तु दर्वासमाहुरुतृण्डेन्द्र एको विभक्तारर्मधानाम् स्तुराभूतयोजस्य पूर्वी अस्मे भद्राणि सस्त्र प्रियाणि देवा वऋषणेन्द्रभूतशे ऋन्कृष्टीनाम् वृषभां सुते सहस्र नौमा नो मान्यूयम् पाद स्वस्तिभिस्वनानः इन्द्रम् नरो नीताः देयकार्याः आगो चक्षा च पुरुभ्यः त्वं विचेता अपावृधिजा जगादश्च इन्द्रो मघासभूते निजामते न भूति अनूय स्वलक्षीणा दीपाय वामन् वृद्धो अभिवीता सहभ्यः नून्द्रैवनोपृत्या मघाय ूजम् वादस्वस्तिभिस्वदानः ब्रह्मान इन्द्रोपायाहिस्ते हराजः सन्तु युक्ता विश्वेत्वा विहवम् प्रमर्ता अस्माकमच्छ विश्वमिन्व इन्द्रमहिमाव्यान ब्रह्मय त्वाजी सव सिन्धृषीनायद्वज्रम् दधिरहत्त उग्रघोरः सम् गत्वा दृष्ठा तमः प्रमेन्द्रजोः बानान् संयन् रोदी विनेथ महे क्षत्रायदा सेहि ज्ञेतु इन्द्रान्द्रे प्रचयच्चष्टे अनेतमनेनार मायी नः स्यात् वोचे मेदिन्द्रम् अधारेण मम राजो राधा सो यद्दन्नः चो वाच ब्रह्मा गतिमविष्टो यूयम् पात स्वस्तिभिसारः अयम् द्वामालिम् क्रतुम् प्रयाहि हरिवर्ततोः पिपात्वा अस्य सुषोदस्य चारोर्दो मीमघमन्य ब्रह्म ब्रह्म कृतिञ्जुानोर्वाचीनो हरेभियम् अस्मिन् शरोम परब्रह्माणि तृणव युवानाः ृदि सूत्रैः कदा मूलम् देवन्दादेव विश्वामनैरातने त्वा राधामहेन्द्रो हवेम उतो घाते गो रुष्या आम् पूर्वे शामतृढा जो जो राधा मेदिन्द्रम् मघोराजो राजसो यद्द अच्चो ब्रह्म कृतिमविष्ठो यूयम् वादस्वस्तिभिः सदा नः आणो देवष्णीन्भवाजो अस्य महे जम्नाय नृपदे शरतायस्याय दूर हवन्द्रभूताहव्यं व्यं सूर्यस्य साधौ त्वं विश्वे सुरेण्यो जनेष्वं हृत्राणि रथया सुभन्तु अधो यत् केतु भव अग्निस्ये ददशूरो न होदाहुमानोऽत्र सुभाय देवाय भयन्ते त इन्द्रने च देवस्तवन्त सूर ददातो मघानि यच्छासूरेभ्युवमरू स्वाभुवो जरणामश्लवन्त कोचे मेदिन्द्रम् मघपारमेण महो राजो राघसो यद्गदन्नः यो अर्जो ब्रह्मा गतिमविष्ठो यूजम् पाद स्वस्तिभिः स्वरा प्रभ इन्द्राजमादनम् हर्यस्वा जगाजत रयसो मामे सौन्द्रे दुःखम् सुदान बभुर जक्षञ्जसाराः द्रुमा त्वम् हीरण्र्वसो अजमिन् च गोभिप्रणोढन् यद्धीत्वा अस्य नो वसो मा नोजवत्र मेजोरन् धीरक्रतुर्म त्वम् बर्मासि स प्रसः पुरो योधश्चन् त्वया प्रतिब्रुवे युजा धापी सहासी तन्त्वारि रक्षमाणा सहद्युभिः ऊर्ध्वा दस्वान्विन्द बोहुपरम् दस्वमुपाद्य सन्ते न मन्दयाः प्रभो ृे भरध्वम् प्रसुमति प्रजादर्शनिप्राः ब्रुव्यचे महिषु वृत्तिनिन्द्राज ब्रह्म जनयन्तविप्राः जन तस्य निीराः चेन्द्राम्बाणीरमन्युमेव राजानन्दधिले स्यै हर्यस्वाय वर्ग जास मास्मनन्दरीर वमन् आत् काचित् समादम् आसन्नुपश्रुतिः इमे हे ब्रमर्ग सुवेदुमासदे इन्द्रे रामञ्जलि लालो बसूयभोरेन पादमादधु यस्कामो वज्राहस्तम् सुदक्षीणम् भुवे इम इन्द्राय संविदेशो मासो दध्यासिरः ताम् आमलाय वैरहस्तपीतये घरिभ्याम् या ह्योगाकर्णयीय देवसूनाम् नो चिन्नो मध्ये सात्यश्चेत्य सहस्रालसन्तः यस्ते च धावत्समजा यम् सुनोता सोम आभ्रे सोमविन्द्राय वचुरे पचाता पत्तिरमासे कणथात्रेण ते मया मा श्रे धन सोमि न रक्षता महेन्द्रे ताम् राज करभिनिर्ज्याय दीक्षे दिमुष्यदिरदेवासः क्रवे न कि सुरसाम्बर्यासनरीर इन्द्रो यस्यागोमादिव्रवे कमद्वाजम् वारयन्नेन्द्रमर्त्यो यस्य त्वमाविता भुवा अस्माकम् बोध्यपितावधानामस्माकम् उजन्मश्च जिज्ञुराह यजेन्द्रो हरिवान्नदभयम् गोदक्षणम् दधाति सोमि मन्त्रमकर्वम् सुधीतम् सुप्रेशम् दधा प्रसीतयस्तरम् त्रितम् जय इन्द्रे कर्म नाभुवत् कस्तमिन् दत्वा वा सुमानचोदर्षि श्रद्धायुक्ते मघवान्मार्ये जीवाजीवाचम् सिशासति मघो नेषु चोदय प्रणीति हर्यश्व सूरिभिर्विश्वादरे मधुविला तपेदिन्द्राम् मुष्य ध्याम् सर्वत्रा विश्वस्य परमस्य राजसि न कृष्पा घोषो बृण्वते त्वम् विश्वस्य धराजिश्रोयीभवः तवायम् विश्वः पुरुहो तवा जीवो भस्योर्नामा भीक्षते यदिन्द्रयापत त्वमेतावदीशीय स्तोता रमिद्दीशिषे जापसोत्वाय राशीय या। शिक्षे यमिन्नाहे हे दीवे राज आकुह चिद्भिदे नयित्व धन्यम् न घनाप्यम्बस्ति पिदासीरा सिवाजम् पुरन्ध्यायुजा न्द्रम् गुरुभूतम् न मेखिला नेमिन् दष्टेव सध्रुवम् न दृष्टुती श्रेधन्दम् सुधिरिन् दो ब्रह्म वदेष्णम् यत्पार्ये दिवि अभि त्वा दूदनो नुमो ईशानमस्य जगदस्वर् समीरान्द्रदुराः नत्वा वाो दिव्यो न पार्थि भो न जातो न जरिष्यते अश्वायन्तोन्द्र पायो गव्यं दत्वा ह वामे अभिषरस्त भरेन्द्र जयः ्रोमसुर्हि मघ्याः परामघवह्नमित्रान् सुरे अस्माकम् बोध्यपितामाहा धने भवा वृधः सखीनाम् इन्द्रकृतम् नाभारमिला पुत्रेभ्यो यथा शिक्षा न अस्मिन् गुरुः दयामानि जीवाज्योतिरसीमहि मा नो अज्ञातावृदनाज्यो मा जीवासो अवक्रमः त्वया भयम् रमरस्वतीरपोति शूरत रामसि शेत्यम् च मा लक्ष्मरबद्धाधियम् जिन्मासो ग्राम् आसद्युम्नस्य वाय तस्य सोमात् सुधान्द्रो वनेतावसिष्ठा ेन्नुकम् सिन्धूमेभिस्तदा देवेन्नुकम् भेदमेभिर्जघान ये वेन्नुकम् वे वे वे दासगाज्ञेषु दासाम्रामलिन्द्रो ब्रह्मनावोपदिष्टाः जुष्टीरो ब्रह्मणावः पितृणामक्षामव्ययन्न किलारिणा यच्छक्वारे नाधितासो दीर्घास राज्ञे मृदासाः वसिष्ठस्यस्तु भरैन्द्रो अश्रो दुरुन्द्रुभ्यो अकृणो दुर्गाम् दहण्डा जिवेद्वो अजानासा सन् परिच्छिन्नाः ृत्सूनाम् विशो अप्रथन्त त्रयः कृण्वन्ति भुवनेषु दत्तिस्र आर्या ज्योतिरत्राः त्रयो धर्मान्ते सर्वानो विधर्वसिष्ठाः सूर्यस्यैव भक्षसो ज्योतिरेणाम् समुद्रस्यैव हिमगधीरः पादस्यैव प्रलभवान्येन स्तोमोहृष्टा अन्वेतमेव तैन्यम् हृदयस्य प्रगेदैः सहस्रावमभिसञ्चरन्ति यमेन ददम्बा निधिम् वयम् उपासे दुर्वः विद्युतो ज्योतिःपरी सञ्जिहारम् यत्रावरुणायतपश्चान्त्वा तत्तेजन्मोदैकम् वजिष्ठा गोयत्वा विश आजभार उदाधीमैत्रावरुणो वा जिष्ठोर्वस्य ब्रह्मन्मनरोऽीजातः रत्सम् स्कन्नम् ब्रह्मणा देव्येन विश्वे देवाः पुष्कारे त्वा ददन्त स प्रयेत उभयस्य प्रविद्वान् सहस्रदानबुलभासदानः यमेन ददम्ब लिम्ब यिष्यन्नेवेऽवसिष्ठः सेह जाताभि कुम्भेरेतस्य ततो हमान उदीयाजमध्यात्ततो जालम् श्रीमाहुर्वसिष्ठम् सभृतम् सामृगम् बिभति द्रावाणमे भगाद्यग्रे उपैमाध्वम् सुमनः समानावो गच्छादिभ्यतृतो वसिष्ठ प्रसूत्रैषु देवी मानीषा अस्मत्सुरटोरसो नवाजी विदुः पृथिव्याधिको जनित्रम् शृण्वन् जाको रामं आपस्थिदस्मै क्रिण्नन्दुरा आधोष्वस्मै दधादाहे वयज्ञम् जाते भवतान्वना हि रोद ोता यज्ञम् दधातकेतुम् जनाय वीरम् उदस्य दुष्माध्वानोन्नार्दविभक्तिभारम् वृथिरभूम क्वयामि देवा अयादुरग्ने साधन् धृतेन धियम् दधामि अभिवो देवीम् धियम् दलिध्वम् रवो देवत्रावाचम् कृणुध्वम् आदष्टासाम् पाथो नदीनाम् वरुण उग्रः सहस्रदक्षाः राजा राष्ट्राणाम् पेशो नदीनाम् ननुतानक्षम् विश्वायु अभीष्टो अस्मान् विश्वासु भिक्षम् गृहस्तनूनाम् अस्मा <Sess> ी नो अग्रिव्यान्नमोऽभिप्रेष्ठो अस्माधायि स्तोम स योर्देवेभिरान्न्वंसि मो नोस्तु अब्दामुक्थैरहि बुद्धे नदीनाम् न जस्तु शीरन् मा नो यद्बुद्ध्यो ऋषेधान्मा यज्ञो अस्य श्रीधृतायो ्रवो धप्रायम् तो अर्जः तपन्त्रम् स्वा अर्णभूमा महासेनाशोऽहमे सेवा पायन्नपत्नीर्गमञ्चच्छात्रष्टादु पाय दधातु वीराल रदीनस्तो मन्त्रष्टादुषेतरमगर्वसूयुः ्रादिषाचो न्यारोदयशीवर्णानि श्रृणोतु वरोत्रीभिः स्वसरणो नो अत्रस्तन्नापस्तद्राजिषा चोषाधीरुद्योः वनस्पतिभिः पृथिवी रजोढाः कुभे नोदयसीपदीपासतो नः अनु दुर्वीरोदयसीदिमलध्यक्षो मलो नयेन्द्र सखा सहासो राजस्यामधरुणम् अध्ये नयेन्द्रो बलो न मेत्र अग्नि छन्न इन्द्राभिष न इन्द्रावरु नागाहू शमिन्द्रा सोमासुभिया शन्न इन्द्राभूषणा वाज शासौ चो नः समन् सन्नः पुनन्धिः समो सन्तुराजाः सन्नः सत्यस्य सुयमस्य सन्धः सन्नो अर्जः ऊर्जातो अस्तु सन्नो जाताशमो धर्ता नो अस्तु सन्न बुरुची भवतु सुधाभिः संरोदयशीर्षन् नो अधुषन् नो देवानाम् शुभवानिशन्तु शरणो आद्यर्जोजरीको अस्तु सन्नो मेत्रावरूणा वश्विनासम् शन्नः सुकृता सुकृतानि सन्तु सन्नो अधिवादाः शद्यावापृथिवी पूर्वभूतौ समन्तरिक्षम् ऋषय अस्तु छन्नपोषाधीर्वो रज सरस्वतीरस्तु जिष्णो छन्दयेन्द्रो वसुभिर्देवो अस्तु समादित्येभिर्वरुणः सुसंसाः सन्नो रुद्रो रुद्रेभिर्जलाः सन्नस्त्वभिघशृणोतु चन्दः सोमा भवजब्रह्म सन्नः सन् नो ग्रावाणः समुसन्धयज्ञाः सन्नः स्वरूणाम् वितयो भवन्तु सन्नः प्रस्वासं वस्तु वेदीः सन्नः सूर्य गुरुचक्षाबुदे सन्नस्ततस्र प्रदिशो भवन्तु सन्नः पर्वता ध्रुवयो भवन्तु सन्नः सिन्धा वः समु सन्तापाः भवन्तु बलुतः षण्ष्णश्च मो भूषाणो अस्तु सन्नो भवेद्रम् ध्रम् वसतु वाजुः सन्न देवः सायमानः सन्नो भवन् दोषो विभाति सन्नः पर्दन्नो भवतु प्रजाज्ञः सन्नः श्रेष्ठश्च शन्नो देवा विश्वदेवा भवन्तु संसरस्वती सह देभिरस्तु समाभिराजशमु राज्वन्नो दिव्या पार्थि वा शन्नो अप्याः भवन्तु स नार्वन्तः समु नुभवः सु हृदः सुहस्ताः शन्नो भवानुरोहेषु शं नो अजेतापाद्देवो अस्तु शन्नो हि बुद्ध्या बुद्धः शं नो अपान्नपात् पेतुरस्तु षण् नः प्रश्निर्भवतु देवगोपात् आदित्यारुद्रावसा गो दुषन्धेदम् ब्रह्म क्लिल पार्थिवासो गोजाता बुदजयज्ञिया जे सह ये देवानाम् यज्ञिया यज्ञियानाम् मनोर्यजत्रा अमृता ूजम् पारस्वस्तिभिः सदा नः संवदी पारयन्त्येतेदम् पृच्छन्ति वचो युजा अभ्यारन्तम् जमाकेतुम् जयवेदमिति ब्रवन् भासाकेतुम् परिश्रुतम् भाराजेर्ब्रह्म वर्धनीः सञ्जाना मयि माता जयवेदमिति ब्रवत् इन्द्रङ्किलिम् विभुम् प्रभुम् भानुमेजम् सरस्वतीमरोवद यज्ञेन रोदसीहे जुढस्वाग्ने अङ्गिलः काण् ध्यातिथिम् मा त्वा सोमस्य वर्णे रत्सुनस्य मधुमहत्तमः ममग्ने अङ्गीरसो जस्व देववी गामः आसन्तमसन्तमाभिरभिष्टिभिः श्रान्तिः स्वस्ति मा कुर्वत सन्नः कनिक्षरद्देवः पर्जन्यो अभिवर्षतु सन्नोद्याभा पृथिवी सदाभ्यः सन्नादे पदे सन् चतुष्पदे भद्रा न अपि वासयमनाः हरे प्रब्रह्मै सु सदानाथ विरस्तु विश्वोगा विषये मध्ये अग्नि रुणासु भृत्यभिन्ने असु धानवीयः इवीरदब्धो जनन्तमित्रो जिब्रुवानः आपादस्य ध्वज दोहन्तजित्यापीपयन्त धेनघोनसूदाः महो दिवः सेदाय मानो चक्रदृढवः सस्मिन्नोहन् राय धरी ध इन्द्र प्रिया सुरधासुरधायु आजू। प्रयो मन्यम् विरक्षतो भिरात्या सुक्रतो वर्जमनम् न वृद्धाम् यजन्द्रे अस्य किम्बय सरमस्विनः स्वर्ग सुधामन्न विवृक्षो बाबे सवा नरो रुद्राज प्रेष्ठम् यत्सागम् यशसो वावशानाः सरस्वती सप्तधी सिन्धुमाता याः सुयम् ताः सुधारा अभिस्तेन पयसापीप्याना उदत्येनो मरुतो मन्दसानाधियम् तोकम् वाजिनो भवन्तु मानः परिख्य दक्षाचरञवृध्यजन्ते रयिम् नाह प्रभो महीम् गृणध्वाम्रभूषणम् विध्याननैलाम् भगवम् धियो विकार अस्याः सातौ वाचम् चम्पुरम् धिम् मरुदश्लोकाये त्वचाविष्णुम् निषिक्तपामबोधि प्रजायी गणते वयो धुर्यूयम् पाद स्वस्तिभिः सदा नो वायुष्ठो भगतस्तवध्येयसो बाला अभित्रीवृष्टैस्व बाले मदे प्रामः म् भगवत् सुधत्त स्वक्ष नो अवृत्तम् संयज्ञे न स्वधा मन्दः पिबध्वम् विनो राधा हंसि मतिभिर्दयध्वम् उपोचिथैमा घाणच्येष्टम् मम विभागे महाते पूर्णा वसू नागभूनता त्वमिनिन्द्रया साभोक्षा वाचो न साधुरस्त मे श्रुत्वा वयम् तस्याम ब्रह्म गृह्णन्तो हरिभो वसिष्ठाः सनीताधिप्रवतो दादुषे वन्मानुते युज्याभिरूची कदा न इन्द्रराज आदाेः एव कदा न इन्द्रवचासो बुबोध अस्त्रम् सुवीरणम् वृक्षा नो अर्वा न्यूहीतभाजी अभियम् देवी निर्वीति स्थिति से नक्षम् द इन्द्रम् शरदः सुवृक्षाः त्रिबन्धर्जरदृष्टिमेत्य स्ववे सञ्जम् कृणवन्तः आ नो राधाम् स्या आरायो पर्वादस्य राधौ सदा नो दिव्यः पायुश्रीरत्तु यूयम् पादस्वस्ति विस्मरा नः पुदुष्यदेवः स विधायमहिरन्ययी मम किम् नूनम् भगो हव्यषे धर्व्यो रासुर्दधाति उदु दिष्ट सैल श्रद्धा अस्य हिरण्यपाने प्रभेदामृतस्य यू उर्वीम् रक्षीभमतिम् सृजान आरभ्यो मत्त भोजनम् सुभानः अभिष्टुरस्य विदादेवो अस्तु यमाजिषेवो गृहन्ति तो मा नमः अस्य नो धादिश्वे वायुवायुभ्यूरि अभियन्दे गदीर्घ्नादि भवन् देवर्जुषाणा अभिरम् राजो वरो नो गृणन्त्यभिमित्रासो अर्यमा सयोः अभिये निधो मनुगः स वन्ते राजिम् धियो राजिराजः पृथिव्याः अयुर्बुद्ध्यामुदरशृणोदोद्येकधेनुभिन्निपातु अनतन्नो जास्त्वधर्मम् श्रेष्टरत्नम् देवस्य न विनिरीयान भगमुग्रो वासे जोगा वीति भगवनुग्रो षण् भवन्त वाजिनो हवेषु देवदा स्वर्गाः जम्भजन्तो हि मृगम् रक्षाम् सृजने वाजे वाजिनो नो धने विप्रामृतारः अस्य मध्वः पिबतमादय ध्वताया तपसि ोध्व अग्निस्वश्वेत् प्रतीति योग्यदेवताद्री रथ्ये भवन्धामृतम् होदा नैर्विजोयजाति रमाभि प्रजा बर्हिरे डामा विश्वतीयाते द्विषा मोर् पूर्वः न्तरिक्षेमजयन्तशुभ्रा अर्वाक्ज्जयः कृण त्वाम् श्रोता दूतस्य यज्ञुषो नो अस्य ते हि यज्ञेषु यज्ञिया स भूमाः सहस्तम् विश्वे अभिसन्दि देवाः ृष्टिभगं न सत्या पुन आग्ने जिरो दिव आपृथिव्यामिन्द्रम्बहवरो नीन्द्रामग्निम् आर्यम नवजीतिं विष्णो मे रां सरस्वती मनो मादयन्ता हरे हि ग्रिया नाम नक्षत्र मम्या अभिष्टु क्षीमैर्येभिष्टुदेव सृष्टैर्वादो मरु अग्निः यच्छन्तु चन्द्रा उपमन्नो अर्कम् यूयम् पादश्वस्य भिसदानः ी दच्छा आसमे तोमं दधीमहिरा यदद्य देवस्य पिता सुवादिश्यामास्य लक्ष्मिनो विभागे मेत्रस्तन्नामरो नो नो दा दद्यु भक्तनिन्द्रो अजमा ददातुष्टु देव्ये वायुसेन वै दे ग्निः सरस्वती जुनतिलकस्य राजम् पर्येतास्ति अयम् हि नेतावरु न धृतस्य मित्रो राजानो अर्जमा बोधु सुगमा देव्यैवाते नो अम्भोति वर्षम् नृष्टा अस्य देवस्य वीरुरो भजा विष्णो रेणस्य प्रभृते हविर्भिः वीरे महित्वम् याशिष्टम् मत्तिरश्विनाविराव मास्योवत्रीयद्रा सन् मयोभुवो नो हन्तु निवान्तु वृष्टिम् वरि ज्वातो ो रोदाभिष्टु देवसिष्ठैर्वृता वा नो मनो नो मिलित्वा अग्निः यच्छन्तु चन्द्राहु भवन्नो अर्कम् जूयम् वा